मुद्गलपुराणं खण्डं त्रि महोदरचरितम् अध्यायम् फिफ्टि वन् श्रवणफलवर्णनम् श्रीगणेशाय नमः मुद्गल उवाच महोदरस्य क्षेत्रं यद्दक्षिणस्यां दिशि स्थितं देवैश्च मुनिभिस्तत्र गणनायकः दशयोजनविस्तारस्तस्य क्षेत्रस्य मानद महोदरश्च तन्मध्ये चतुरस्रे स्थितो भवद स्वस्वखण्डेषु सर्वत्र द्वीपेषु मुनिभिः तत्र देवादय दे सर्वे ऋषयो योगिनस्तथा तीर्थानि क्षेत्रमुख्यानि संस्थितानि भवन्ति च समुद्रे स्नानकर्तार स्वस्वतीर्थेषु नित्यदा गणेशानां भजन्तस्ते परस्परहितेरदाः नानारूपाणि ते सर्वे महोदरकृतानि च चेष्टितानि स्मरन्दो वै हृष्टरोमाण आभवन् सिद्धिबुद्धियुधं तं ते मूषकं पुरतः स्थितं दूर्वादिभिः पूजयन्ति विशेषेण प्रजापते भाद्रशुक्लचतुर्थीजस्तत्र मुख्यो महोत्सवः वर्षमध्ये वै भवति भक्ता प्रकुर्वते तदो महोदरस्यैव दर्शनेन हृदीप्सितं लभदे मानव सर्वं स्मरणेन तथा विभोहो। क्षेत्रे मरणदो दक्षब्रह्मभूतो भवेन्नरः अष्टौ विनायका प्रोक्तास्तेषां क्षेत्राणि सर्वदा ब्रह्मभूतमयान्येव तेषु सर्वे शिवादयः संस्थितभक्तिकार्यार्थं ज्ञातव्यं विबुद्धैः सदा त्रैलोक्ये श्रेष्ठरूपाये शेषादय उदाहृताः ते सर्वे निवसन्त्यत्र क्षेत्रेष्वट्सु निश्चितम् तत्र गाणेशतीर्थं महोदरस्य च हर्षदम् स्नानेनात्र कृते नैव पुमान् सर्वार्थसिद्धिभाक् विष्णवादिषु तधान्येषु तीर्थेषु च विशेषतः गणेशक्षेत्रगेष्वेव स्नानमात्रेण देहिनां तत्तत्पदप्रदानिष्विस्तेषामन्ते प्रजापदे ब्रह्मभूता भविष्यन्ति स्वानन्दे वासकारिणः अन्यदेवस्य भक्ता ये क्षेत्रे गणेशके मृदाः तस्य देवस्य लोके ते गमिष्यन्ति न संशयः महालये त्रयो देवालयं गच्छन्ति चेत् प्रभो तदा ते निजलोके वै गमिष्यन्ति सुखप्रदे क्षेत्रे मरणसंस्काराद्ब्रह्मभूता भवन्ति च अदो नरेण तद्भक्त्या गणेशं सेव्यमादराद यत्र कुत्र भक्ता ये भजन्ति महोदरं ते सर्वे ब्रह्मभूता वै ज्ञातव्याः पावना नृणां कुर्वन्ति शिवादी ये शिवादीनां भजनं जन्मजन्मसु तेन संस्कारयोगेन गणेशास्ते भवन्ति वै गाणेशान्नपरं ब्रह्मकथिदं सर्वसम्मतम् अधो गणेशभक्ता ये ते मदाः इदं महोदराख्यानं कथितं ते प्रजापदे सर्वसिद्धिप्रदं पूर्णं समासेन यथामधि शृणुयाद्यो नरो भत्तया श्रावयेद्वा पठेद्यदि अन्ते स ब्रह्मभूतश्च भविता नात्र संशयः अनेन न लोकेषु विद्यते सर्वदा मानवादीनां ब्रह्मादीनां व्रतानि विधिवन्नागुरुदे मानवोत्तमः अस्य श्रवणमात्रेण तद्फलं लभदे प्रभो नानातीर्थेषु यत् स्नाया तर्पये देवतादिकान् यथा शास्त्रं फलं तस्य तदस्य श्रवणाल्लभेद क्षेत्रेषु भक्तिसंयुक्तो नरो वासं करोधियः विधिवद्धर्मशीलज्ञस्तद्फलं श्रवणाल्लभेद यज्ञैर्नानाविधैर्दक्षे दृष्ट्वा देवान् यथार्थः यद्फलं लभते मर्त्यस्तदस्य श्रवणाद्फलम् इष्टापूर्तादिकं सर्वं ह्यः करोति नरोत्तमः अस्य श्रवणतः सद्यस्तत्फलं लभते पुमान् बहुनात्र किमुक्ते न ब्रह्मभूय पदं भवेद श्रवणेन सन्देहो धर्मकामार्थमोक्षदम् पुत्रपौत्रादिकम् सर्वम् धनम् धान्यम् विशेषतः राज्यमश्वादिकम् सर्वम् लभते श्रवणेन च महोदरस्य माहात्म्यम् गृहे संलिखितम् भवेद् न तत्र राक्षसादिग्भ्यश्चोराग्न्याद्याद्भयम् भवेद् ग्रहयोगादिका पीडापूजनेन च नश्यदि पुस्तकस्यास्य भोदक्ष नात्रकार्याविचारणा इच्छन्धि जन्धवो यद्यदस्य श्रवणकारकाः तत्तन्महोदरसुप्रीदो प्रतापवान् वाचकं परितोष्यैव लभदे तत्क्षणात्फलम् गणेशसन्निधाने च श्रवणेन न संशयः पतिता उद्धरिष्यन्ति श्रवणेनास्य निश्चितं किं पुनर्नभावसंयुक्ता ब्रह्मभूता भवन्ति चेद् नानेन सदृशं कुत्र ब्रह्मगोलके साक्षाद्योगपतिर्यत्र वर्ण्यते स सा महोदरः विधिते कथितं सर्वं सङ्क्षेपेण मया प्रभो महोदरस्य माहात्म्यं श्रोतुमिच्छसि किं सूत उवाच एवमुक्त्वा महायोगिमुद्गलो विररामः महा। तदेतत् कथितं सर्वं मया देनाथसंशयः सर्वमान्यं विशेषेण मदमान्यं महामदे वेदादीनां तथासारं ज्ञातव्यं ब्राह्मणा इदं नानाशास्त्रपुराणानि मन्थयित्वा महामुनिः व्यासः ब्रह्मप्रदं प्रभुः न गणेशात् परं ब्रह्म न गणेशात् परं तपः न गणेशात् परं कर्मज्ञानं न गणपात् परम् त्यक्त्वा गणेशमेकं यो नरकर्मपरायणः ब्रह्मज्ञानादिकं सर्वं साधये चेत् सुनिष्फलं सिद्धेः परित्यज्य सिद्धिमिच्छति शाश्वतिं फलहीनस्वभावेन नारगी जायते नरः बुद्धेः पदीं परित्यज्य स्थिरबुद्धिं य इच्छति न योगं लभते सोऽपि भस्मनिप्रहृतं यद्धा सर्वपूज्योऽयमेकश्च सर्वादिस्सर्वभावनः तं भज त्वं विशेषेण द्विजा वेदादिसम्मतं कथितं सर्वसारं ते महोदरकथानकं किं श्रोतुमिच्छसि प्राज्ञदशौनकथे नमः ॐ तत्सदिति श्रीमदान्ध्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरधरिदेश्रवणफलवर्णननामैकपञ्चाशत्तमोऽध्यायः इति तृतीयः खण्डः समाप्तः इति श्रीमुद्गलपुराणे तृतीयः खण्डः समाप्तः ओम्